अथ गुह्यादिमस्तकान्तम् षडङ्गन्यासश्चतुर्थः शिवाय नमः मणो ज्योतिर्जुषतामाज्यम् लिच्छिन्न यज्ञकम् समिमम् दधातु या युष्टा वुषतो निमृशश्च ताः सन्तधामि हविषा घृतेन गुह्याय नमः अभोध्यग्निः समिधा जनानाम् प्रतिधेनुविवायति यक्वायुवः प्रभयामुज्जिहानाः प्रभा नवः सिस्रतेनाकमच्च नाभ्यै नमः अग्निर्मूर्धादिवः ककुत्पतिः पृथिव्या अयम् अपागुम् रेतागुंसि जिन्वती हृदयाय नमः मूर्धानन्दिवो अरतिम् पृथिव्या वै विश्वानरमृताय जातमग्निम् कविगम् सम्राजमतिथिञ्जनानामासन्ना पात्रम् जनयन्त देवाः कण्ठाय नमः मर्माणि ते वर्म भिष्टादयामि सोमस्त्वा राजामृतेनाभिवस्ता पुरोर्वरीयो वरिवस्तेऽस्तु देवाः मुखाय नमः जातवेदा यदि वैश्वानरो यदि वावै द्युतोऽसि सम्प्रजाभ्यो यजमानाय लोकम् ऊर्जम् पुष्टिम् ददभ्यापवृत्स्व शिरसे नमः